ऋग्वेदीय पवमानसूक्तम् प्रयर् गणानां त्वा गणपादिं हवामहे कविं कवीनामुपवश्रवस्थमं ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पद आनशृण्वन्नुदिभिः सीदसादनम् प्रणो देवी सरस्वती वाजे भेर वाजेभिर्वाजिनीवती धीनामा मावित्र्यवधू वेदवादस्य वर्दनिमुरोर्ृश्वस्य बृहतः वेदा ये अध्यासदे शतधारमुत्समक्षीयमाणं विपश्चितम् पितरं वक्त्वानां मेलिं पित्रो पित्रोरुपस्थेतं रोदसी पिपृतं सत्यवाचम् रुचो अक्षरे परमे व्योमन् यस्मिन् देवा अधिविश्वे निषेदुः यस्तन्न वेदकमृजा करिष्यति यत् तद्विदुस्त इमे समासते ओग्वेदीयपवमानसूक्तं मण्डलं 9.1 पायिण्ट् वन् स्वाधिष्ठयामधिष्ठया पवस्वसोमधारया इन्द्राय पादवे सुतः रक्षोहा विश्वचर्षनिरभियो निमयोहदं द्रुणासदस्थमासद वरिवो धादामो भव मं हिष्ठो पृत्रहन्तमः परिशिराधो मखो अभ्यर्ष महानान् देवानां विधिमन्थासा अभिवाजमुदश्रवः त्वामच्छाचरामसि तदिदर्थ दिवे दिवे इन्द्रत्वेन आसः पुनादिते परिश्रुतं सोमं सूर्यस्य दुःखिता वारेण शश्वतात्तना तमीमन्वी समर्य आ दश स्वसारः दिवि तमीं िन्वान्त्यग्रुवोधमन्दिबाकुरन्धृतिं त्रिधाधु वारणं मधु अभी ममज्ञा उदश्रीनन्दिधेनवशिशुं सोममिन्द्राय पादवे अस्येदिन्द्रो मदेष्व विश्वा वृत्राणि जिघ्नते सूरो मखाच मंहते ऋग्वेदमण्डलं नैन् 9.2 पवस्वदेव पवस्वदेववीरधि पवित्रं सोमरं ह्या इन्द्रमिन्दो वृषवीश आ वज्यस्वमहिप्सरो वृषेन्दोद्युम्न वत्तमः आयोनिन्धर्मि सदः अधुक्षतप्रियं मधुधारा सुदस्य वेधसः अपोवसिष्ट वसिष्ठ सुक्रदोः महान्दन्त्वा महिरन्वापो अर्षन्ति सिन्धवः यद्गोभिर्वासयिष्यसे समुद्रो अप्सु मा मृजे विष्टम्भो धरुणो दिवः सोमः पवित्रे अचिकृ दृषा हरिर्महान्मित्रो न दर्शदः संसूर्येण नरोचते गिरस्त इन्दजसा मर्मृज्यन्ते अपश्युवः याभिर्मदाय शुम्भसे तन्त्वामदाय हृष्वय उलोक कृणोमी महे तव प्रशस्तयो महीः अस्मभ्यमिन्दविन्द्रयोर्मध्वः पवस्वधारया पर्जन्यो वृष्टिमा इव गोषा इन्दो नृषा अस्य श्वसा आत्मा यज्ञस्य पूर्व्यः ॐग्वेदमण्डलं नैन् पाय्ण्ट् त्रि एष देवो अमर्त्यः पर्णवीरीव दीयदि अभिद्रोणान्यासदम् एष देवो विपा कृतो दिवरांसि पवमानो अदाभ्यः एष देवो विपन्युभिः पवमान हृदायुभिः हरिर्वाजाय मृज्यते एष विश्वानिवार्या शूरो यन्नेव सत्त्वभिः पवमानसिशा येष देवो राधर्यदि पवमानो दशस्यदि आविष्कृणोदि वग्वनुं येष विप्रैरभिष्ठुतोभो देवो विगासते दधद्रत्नानि दाशुषे येष दिवं विधावदिति रोचजांसि धारय पवमानः कनिक्रदद येषं व्यासरस्तिरोरजांस्य स्पृतः ये जन्मना देवो देवेभ्यः हरिः पवित्रे अर्षदि एष उस्य पुरुव्रधो जज्ञानो जनयन्निशः धारया पवते सुतः ऋग्वेदमण्डलं नैन् पाय्ण्ट् फ़ोर् सना च सोमजेषि अधानो वस्य संस्कृधि स नाज्यो दिशन स्व अर्विश्वा अधानो वस्य संस्कृधि स ना मृधो जहि अधानो वस्य संस्कृधि पवितारः पुनीतनसोममिन्द्राय अधानो वस्य संस्कृधि त्वं सूर्येण आभज तव क्रत्वा तवोतिभिः अधानो वस्य संस्कृधि तव तवो दिभिर्ज्योपश्येमसूर्य॑म् अधानो वस्य सस्कृधि अ॒भ्यर्षस्वायुधसो मद्विबर्हसं समत्सो सासहिः अधानो वस्य सस्कृधि त्वा यज्ञैरविवृधन् पवमानविधर्मणि अधानो वस्य सस्कृधि जयन्नश्चित्रमश्विनमिन्दो विश्वायुमाभर अधानो वस्य सस्कृधि ऋग्वेदमण्डलं नैन् पाय्ण्ट् फैव् समिद्धो विश्वतस्पधिः पवमानो विराजदि प्रीणन्वृषा कनिक्रददनो नपात् शिशानो अर्षदि अन्तरिक्षेणरारजद कीळन्यः पवमानो रयिर्विराजदिद्युमान मधोर्धाराभिरोजसा बर्हि प्राचीनमोजसा पवमानस्तृणन्हरीः देवेशो देव ईयते उदातैर्जिहदे बृहद्वारो देवीर्हिरण्यैः पवमानेन सुष्ठुताः सुशिल्पे बृहति मही पवमानो वृषण्यदि न क्लो शासान दर्षदे उभा देवा नृचक्षसा होतारा दैव्या पवमान इन्द्रो पृषा भारती पवमानस्य मही। इम नो यज्ञमागमन्दिस्रो देवी सुपेशसः त्वष्टारमग्रजाङ्गोपां पुरो या वानमाहुवे इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापदिः वनस्पतिम् पवमानमध्वा समङ् धारय सहस्र वल्ष्यं हरीदं भ्राजमानं हिरण्ययम् विश्वेदेवा स्वाहा कृधिं पवमानस्याददा योर्बृहस्पदि सूर्योऽग्निरिन्द्रः सजोष सः ऋग्वेदमण्डलं नैन् पायिण्ट् सिक्स् मन्त्रया सोमधारया वृषापवस्वदेवयुः अव्योवारेश्वस्मयुः अभित्यं मध्यम् मदमिन्दविन्द्र इदिक्षर अभिवाजिनो अर्वदः अभित्यं पोग्यं मदं सुवानो अर्ष पवित्र आ अभि वाजमुदश्रवः अनुद्रब्सास इन्दव आभो न प्रवदासरन् पुना इन्द्रमाशदा यमत्यमिव वाजिनं मृजन्ति योष नो दशा वने क्रीळन्तमत्यविम् तङ्गोभिर्वृषणं रसं मदाय देववीतये सुदं भराय संसृज देवो देवाय दारयेन्द्राय पवदे सुतः पयो यदस्य पीपयत् आत्मा यज्ञस्य रंह्या सुश्वान्नः पावदे सुदः प्रत्ननिपादि काव्यम् ये वापुनान इन्द्रयुर्मदं मदिष्टवीतये गुहाचिद्धदिशे गिरः ऋग्वेदमण्डलं नैन् पाय्ण्ट् 9.7 अश्रुग्रमिन्दवपधा धर्मनृतस्य शुश्रियः विधाना अस्य योजनं प्रधारामध्वो अग्रियो महीरभो विगाहते हवेर्हविषुवन्त्यः प्र प्रयुजो वाचो अग्रियो स्पृशावचक्रदध्वनेः सत्माभिषत्यो अध्व॒रः परि यत्काव्या कव्यैर्नृम्णा वसानो अर्षदि स्वर्वाजी शिशदि पवमानो अभिस्पृधो विशो राजे वसीदधि यदी मृण्वन्ति वेधसः अव्यो वारे परिप्रियो हरिर्वने शुसीदधि रेभो वनुष्यते मती स वायुमिन्द्रमश्विना सागं मदेन गच्छति रणायो अस्य धर्माभिः आमित्र वरुणा भगं मध्वः पवन्त ऊर्मयः शक्माभिः अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सादये श्रवो वसोनि सञ्जीतम् ये देशो मा अभिप्रियमिन्द्रस्य काममक्षरन्न वर्धन्तो अस्य वीर्यम् पुना सश्च मोषधो गच्छन्तो वायुमश्विना तेनो दान्तु सुवीर्यम् इन्द्रस्य सोमराधसे पुनानो हार्दी चोदय हृदस्य योनि मासदम् मृजन्धित्वा दशक्षिपो हिन्वन्दी सप्तधीतयः अनुविप्रा अमादिषुः देवेभ्यस्त्वा मदायगं सृजानमदीमेष्यः सङ्गोभिर्वासयामसि पुनः कलशेष्वा वस्त्राण्यरुषो हरिः परिगव्यान्यव्यद मखो न आपवस्वनो जहि विश्वा अप॒द्विषः इन्दो॒ सखायमाविश वृष्टिं दि॒वः परिस्रवद्युम्नं पृथि॒व्या सहो नसोमा सोम नृचक्षसं त्वा वयमिन्द्रपेदं स्वर्विदं भक्षीमहि प्रजामिषम् ऋग्वेदमण्डलं नैन् पायिण्ट् परिप्रिया दिवकविर्वयां सिनप्त्योर्हितः सुवानो यादिकविक्रदुः प्र क्षयाय पन्यसे जनाय चुष्ठो अद्रुहे वीत्यरिष च निष्ठया स शुचिर्जातो जादे आरोचयद महान्मही हृदा वृधा स धिदिभिर्हितो नद्यो अजिन्वद्रुहः या एकमक्षी वावृधुः ता अभि सन्तमस्रुदमहे युवानमादधुः इन्दुमिन्द्र तव व्रदे अभि वह्निनमर्त्य तपश्यदि वावहिः क्रविर्देवीरतर्पयद अवाकल्पेषु नः पुमस्तमांसि सोमयोध्या तानि पुनानजङ्खनः नु न व्यसे न वीयसे सूक्ताय साधयापधः प्रत्नवद्रोचय ऋचः पवमानमहि श्रवो गामश्वं रासि वीरवद सनां मेधां सना स्वः ऋग्वेदमण्डलं नैन् पायिण्ट् इवार्वन्तो न श्रवस्यवः सोमासो राये अक्रमुः हिन्वानासो रधा इव दधन्विधे गभस्त्योः भरासकारिणामिव राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जदे यज्ञो सप्त धादृभिः परि सुवानास इन्दवोमदाय बर्हणा गिरा सुता अर्षन्दिधारया आपनासो विवस्वदो जनन्त उषसो भगम् सूरा अण्ं विदन्वदे अपद्वारा मतीनां प्रत्ना ऋण्वकारवः वृष्णो हरस आयवः आसते पिप्रतह होता सप्तज आददे नदि सूर्ये सचा कवेर पथ्य अभिप्रिया दिवस्पदमध्वर्युभिर्गुहाहिदं सूरः पश्यति चक्षसा ऋग्वेदमण्डलं नैन् पायिण्ट् इलेवेन् उपास्मै गायदा नरः पवमानायेन्दवे अभिदेवाँ इयक्षदे अभिते मधुना पयोधर्वाणो अशिश्रयुः देवन् देवाय देवयो स नः पवस्वशङ्गवे शञ्जनाय बभ्रवेनुत्स्वतवसे वसे दिवि स्पृशे सोमाय गाधमर्च्छद अस्तच्युतेभिरद्रिभिः सुदं सोमं पुनीतन मधावा धावता मधु नमसे नमसेदुपसि दददध्ने दभिश्रीणीतन इन्दुमिन्द्रे दधातन अमित्रः विचर्ष निः पवस्व देवेभ्यो अनुकामकृत इन्द्राय सोम मदाय परीक्षिच्यसे मनश्चिन्मनसस्पदीः पवमानसुवीर्यं रयिं सोमरिरीहिणः इन्दविन्द्रेण ननो युजा ऋग्वेदमण्डलं नैन् पाय्ण्ट ट्वेल्व् सोमा असृग्रमिन्दवसुता ऋतस्य सादने इन्द्रायमधुमत्तमाः अनुषदगावो वत्सन्नमातरः इन्द्रं सोमस्य पीतये सादने सिन्धोरुर्मा विपश्चिद सोमो गौरी अधिश्रुतः दिवो नाभाविचक्षणोऽव्यो वारे महीयदे सोमो यः शुक्रदुःखविः लशेष्वा अन्तः पवित्र आहतः तमिन्दुः परीषस्वजे प्रवाचमिन्दोरिष्यदि समुद्रस्याधिविष्टपि नित्यस्तोत्रो वनस्पदिर्धीना मन्दसाभर्दुःखः हिन्वानो मानुषायुग अभिप्रिया दिवस्पदा सोमो हिन्वानो अर्षदि विप्रस्य धारया कविः आ पावमान धारयरयं सहस्रवर्चसम् अस्मे इन्दो स्वाभुवम्